अथर्ग्वेदे द्वितीयाष्टके अष्टमोऽध्यायः को मन्दस्व होत्रादनुजोषमन्धसोद्भर्यवसपूर्णाम्भष्ट्यासि चम् तस्मा एतम् भरत यपूर्वमहुवेतमिदम् हुवेसे दुहव्यो दतिर्यो नामपद्यते अद्धर्यभिः प्रस्थितम् सौम्यम् मधुपोत्रात्सोमन्द्रविनोदः पिब ऋतुभिः मेद्यम् तु देवह्नयोलेऽभिलीयसे रिषण्यन्वीरयस्वावनस्पते आयूयादृष्णो अभिगोर्यात्त्वन्मेष्ट्रात्सोमन्द्रविनोदः पिब ऋतुभिः अपाद्धोत्रादुतपोत्रादमत्तोतनेष्ट्रादजुषतप्रयोहितम् तुरीयम् पात्रममृक्तममर्त्यन्द्रविणोदाः पिबतु द्राविणोदसः अर्वाञ्चमद्यम् द्रवाहणम् रथम् युञ्जाथामिह वाम् विमोचनम् वृङ्गम् हवीम् शिमधुनाहिकम् कतमथा सोमम् पिबतम् वाजिनीवसु जोष्यग्ने समिधम् जोष्याहुतिञ्जोषिब्रह्मजन्यञ्जोषि सुष्ठुतिम् विश्वेभिर्विश्वाङ् ऋतुनावसो महः उशम् देवाङ् उषतः पायया हविः उदृश्यदेवः सभिता समायशश्वत्तमम् तदपावह्निरस्थात् नूनम् देवेभ्यो विहिधाति रत्नमथा भजद्वीति होत्रम् स्वस्तौ विश्वस्य हि सृष्टये देव ऊर्ध्वः प्रबाहवा पृथुपाणि सर्ति आपश्चिदस्य व्रत आनिमृग्रा अयम् चिद्वातोः रमते परिज्मन् आशुभिश्चिद्यान्विमुचाति नूनमरीरमदतमानञ्चिदेतोः अह्यर्षोणाञ्चिन्ययाम् अविश्यामनूरतम् सवितुर्मोक्यागात् पुनः समम् यद्वितदम् वयम् ते मध्याकर्तोऽर्ण्यथाच्छक्मधीराः मृत्संहायाङ्गदर्धनरमतिः स पिता देव आगात् नानौकाहम्सिदुर्यो विश्वमायुर्वितिष्ठते प्रभवः शोको अग्नेः ज्येष्ठम् समापवर्तिभिष्ठितो जिगीषुर्विश्वे येषाम् कामश्चरताममाभूत् शश्वान् अपोविकृतम् नित्याघातनूह्रतम् तया आहितमप्यमप्सु भागम् धन्वान्वामृगजसो वना आदिविभ्यो न किलस्य याद्राध्या अम्बरुणो योनिमप्यमनिषि तन्निमिषिजर्भुराणः विश्वो मार्ताण्डो व्रजमापसुर्गाः स्थशो जन्माः निसविता व्याकाः न वरुणो नमित्रो मित्रो व्रतमर्यमानमिनन्ति रुद्रः त यस्तभिदम् स्वस्ति हुवे देवम् स पितारम् नमोभिः भगवम्भिरम् वादयन्तः पुरम् भिन्नराशम् अव्याह आये वामस्य सङ्गते रयीणाम् प्रिया देवस्य स पितु स्याम अस्मभ्यम् तद्दिवो अभ्यः पृथिव्यास्पयाः दत्तङ्काम्यम् संयतस्तोतृभ्य आपये भवात्युरुशंसा आयसवितर्जरित्रे ग्रावाणेव तदिदर्थम् जरेथे गृध्रे एव वृक्षन्निधिमन्तवच्छ ब्रह्माणे एव विदथ उक्थशासा आदूते वहव्याजन्या आपुरुत्रा प्रातर्यावाणारथ्ये एव वीराजेव वा यमापरमासेथे नेने इव तन्वा आशुम्भमाने दम्पती वक्रतुविदा जनेषु शृङ्गे एव नः प्रथमागन्तमर्वाक्षफाविभजर्भुराणातरोभिः चक्रवाकेव प्रथिवस्तोरुस्रार्वाञ्चायातम् रथ्येव शक्रा नावेव नः स्पारयतम् युगेवनभ्येव न उपथीवप्रथीव श्वाने वो अरिषण्यातनूनाम् घृगलेव विस्रसः पादमस्मान् वाते वा दुर्या नद्ये एव रीतिरक्षे इव चक्षुषायाः तमर्वाक् हस्ताः पिबतन्डेशम्भविष्ठा पादे एव नो अच्छा मध्वास्ने वदन्तास्तनाविव पिप्यतम् जीवसे नः भूतमस्मे हस्तेव शक्तिमभिसन्ददीलः इमा गिरो अश्विना युष्मयन्तीक्ष्णोत्रेणेव स्वधितिम् संशिशीतम् एतानि मामश्विना वर्धनानि ब्रह्मस्तोमङ्गृत्समदासो अक्रन् तानि न राजजुषाणोपयातम् रहद्वदेम विदधे सुवीराः सोमा आपूषणा जननारजीणाञ्जनना दिवो जनना पृथिव्याः जातौ विश्वस्य भुवनस्य कोपौ देवाः कृण्वन्नमृतस्य नाभिम् इमौ देवौ जायमानौ जुषन्तेमौ तमांसि गूहतामजुष्टा आभ्यामिन्द्रः पक्वमामा स्वन्तः सोमापूषभ्याम् जनतुश्रियासो सोमाः पूषणारजसोऽ विमानम् सप्तचक्रम् रथमविश्वविन्दम् विशोवृतम् मनसा युज्यमानन्तम् जिन्वथो वृषणा पञ्चरश्मिम् दिव्या अन्यः सदनम् चक्र उच्चापृषिम् या मन्यो अभ्यन्तरिक्षे तावस्मभ्यम् पुरुवारम् पुरुक्षम् राजस्पोशम्विश्यतान्नाभिमस्मे विश्वान्यो भुवना जानविश्वमन्यो अभिचक्षाण एति सोमाः पूषणापवतम् धियम् मे युवाभ्याम् विश्वाः प्रतना जयेम धियम् पूषाजिन्वतु विश्वमिन्वो रजिम् सोमो रयिपर्दधातु अवतु देव्यदितिरनर्वा बृहद्वदेमविदथे सुवीराः मायोयेते सहस्रिणो रथाः सस्तेभिरागहि नियुत्वान् सोम पीतये नियुत्वान् वाजवा गह्ययम् शुक्रो अयामिते ते दन्ताहासि सुन्वतो गृहम् शुक्रस्याद्यगवाः शिर इन्द्रवायो नियुत्वतः आयाः तम् पिबतन्नरा अयम् वाम् मित्रावरुणा सुतः सोमरुता वृथा ममेदिह श्रुतम् भवम् राजा नामनभिद्रुहा ध्रुवे सदस्युत्तमे सहस्रस्थूण आसाते ता सम्राजाः घृता सुती आदित्यादानुनस्पती स चेते अनवह्वरम् गोमदूषुणाः सत्याश्वाः बद्यातमश्विना वर्तिरुद्रा नृपाह्यम् न यत्परो नान्तर आदधर्षद्वृषण् वसु दुश्यम् सोमर्त्यो रिपुः ता न आवोल्ढमश्विना रयिम् पिशङ्गसन्दृशम् धिष्ण्यावरिभोविदम् इन्द्रो अङ्गमहद्भयमभीषदपचुच्यवत् स हि स्थिरो वितर्षणिः इन्द्रश्च मृळयाति नो ननः पश्चादघन्नशत् भद्रम् भवाति विश्वे देवास आगतशृमृताम इमम् हवम् एदं बर्हिर्निषीदत तीव्रो गो मधुमाम् अयम् शुनहोत्रेषु मत्सरः एतम् पिबतराम्यम् इन्द्रज्येष्ठामरुद्गणा देवासः पूषरातयः विश्वे मम सुता हवम् अम्बि नदी तमे नदीतमे अप्रशस्ता इव स्मसि प्रशस्तिमम् वनस्कृधि त्वे विश्वा सरस्वतिश्रिताजूं श्रिदेव्या शुनहोत्रेषु मत्स्वप्रदान् दे विदिनः इमा ब्रह्म सरस्वतिजुषस्व वाजिनीवति या ते मन्मकृत्समदाहृतावरि प्रिया देवेषु यज्ञस्य शम्भुवा आयुवामिदा ग्निम् यवाहनं हव्यवाहनम् द्यावानः पृथिवी इवम् सिद्धमद्यति विस्पृशम् यज्ञम् देवेषु यच्छता आवामुपस्थमद्रुहा देवास्यीदन्तु यज्ञाः इहाद्य सोमपीतये कलिक्रदज्जनुषम् प्रभ्रुवाणहियर्ति वाचमरिते भलावम् सुमङ्गलश्च शकुने भवाऽसि मात्वा काचिदभिभाविश्या विदत् मात्वा आश्येण उद्बीन्मा सुपर्णो मात्वा विदधिषु मान् वीरो अस्ता पित्र्यामनुप्रदिशङ्कनिक्रदत्सुमङ्गलो भद्रवादी वदेह अवक्रन्ददक्षिणतो गृहाणाम् सुमङ्गलो भद्रवादी मानस्तेन ईशतमाकशंसो बृहद्वदेम मा विदधे सुवीराः प्रदक्षिणीदभिगृणन्ति कारवोभयो वदन्तर्तुथा शकुन्तयः उभे वाचौ वदति सा मगा इव वृषेव वाजीशिशुमतीरपीत्या सर्वतो न शकुने भद्रमा वद विश्वतो नश्यकुने शकुने पुण्यमावद आवदंस्त्वम् शकुने भद्रमावद तूष्णीमासीनः सुमतिम् चिकिद्धिनः यदुत्पतन् वदसि कर्करिर्यथा बृहद्वदेम विदधे सुवीराः भद्रम् वद दक्षिणतो भद्रमुत्तरतो वद भद्रम् पुरस्तान्नो वद भद्रम् पश्चात्कपिञ्जल भद्रम् वद पुत्रैर्भद्रम् वद गृहेषु च भद्रमस्माकन्नो वद भद्रन्नो अभयम् वद भद्रमधस्तान्नो वद भद्रमुपरिष्टान्नो वद भद्रम् भद्रम् न आवद भद्रन्नः सर्वतो वद अस भद्रः पुरस्तान्नः शिवम् अभयम् सततम् पश्चाद्भद्रमुत्परतो गृहे यौवनानि महयसि जिग्युषामि वदुन्दुभिः शकुन्तकप्रदक्षिणम् शतपत्राभिनोऽवद आवदम् त्वम् शकुने भद्रमावद तूष्णीमासीनः सुमतिम् चिकिद्धिनः यदुत्पतम् वदसि कर्करिर्यथा बृहद्वदेम विदथे सुवीराः सोमस्य मातव संवक्ष्यग्ने विश्वेश्वरविरूपाक्षविश्वरूप सदाशिव शरणम् भवभूतेशकरुणा करशङ्कर हरशम्भो महादेव विश्वेशामरवल्लभ शिवशङ्करसर्वात्मन्नीलकण्ठनमोऽस्तुते मृत्युञ्जयाय रुद्राय नीलकण्ठाय शम्भवे अमृतेशाय शर्वाय महादेवाय ते नमः उग्रायोग्राघनाशाय भीमाय भयहारिणे ईशानाय नमस्तुभ्यम् पशूनाम् पतये नमः दशसप्त च नामानि मण्डलान् तेषु यः पठेत् स शिवस्य पदम् गत्वा शिवलोके महीयते नास्ति मृत्युभयम् तस्य पापरोगादि किञ्चन यज्ञेशाच्युतगोविन्दमाधवानन्दकेशव कृष्णविष्णोदृश्रीकेशवासुदेवनमोऽस्तुते कृष्णाय गोपिनाथाय चक्रिणे मुरवैरिणे ऋक्मिणीशाय गोपाय गोविन्दाय नमो नमः साक्षान्मूलप्रमाणाय विष्णोरमिततेजसे आद्याय सर्ववेदानाम् ऋग्वेदाय नमो नमः हरिहर शिवशङ्कर वामनवासुदेव विरामस्तावत् विश्वेश्वराय नमः हरिः ॐ श्रीगुरुभ्यो नमः हरिः ॐ सोमस्य मा तव संवक्ष्यग्ने बन्निम् च कथर्थविदधे यजध्यै देवाङ्गच्छादीद्युञ्जे अद्रिंशमाये अग्ने तन्वञ्जुषस्व प्राञ्च यज्ञम् च क्रमवर्धताङ्गी समिद्भिरग्निर्नमसाधु पश्यन् विवश्यशासुर्विदथा कवीनाङ्गृत्सायचित्तपसे गातुमीषुः मयो दधे मेधिरः पूतदक्षो दिवः सुबन्धुर्जनुषा आपृथिव्याः अविन्दनुदर्शतमप्स्वा अन्तर्देवासो अग्निमपसि स्वश्रोणाम् अवर्धयन् सुभगम् सप्त महित्ता शिशुन्न जातमभ्या आरुरश्वा शुक्रेभिरङ्गैरज आततन्वान्कृतुम् पुनानः कविभिः पवित्रैः श्रोतिर्वसा नः पर्यायुरपांश्रियो मिमीते बृहतीरनूनाः वौराजा आसीमलदतीरदब्धा दिवो जक्वीरवसाना अनग्नाः स ना अत्र युवतयस्य नेरे कङ्गर्भन् दधिरे सप्तवाणीः ीर्णा अस्य संहतोः विश्वरोपाघृतस्य यौनो स्रपथे मधूनाम् अस्थुरत्रथेन वः पिन्नमानामहे तस्मस्य मातरा समीची बभ्राणः सूनो सहसोऽध्यौद्दधानः शुक्रारभसा पुंषि शोतन्त्रिधारा मधुनो घृतस्य वृषा यत्र वा पितुश्चिदोधर्जनुषाः विभेदव्यस्य धाराः असृजद्विधेनाः गुहाचरन्तम् सखिभिः शिवेभिर्दिवो जह्वेभिर्नगुहाः बभूव पितुश्च गर्भञ्जरितुश्च बभ्रे पूर्वीरेको अथजर्पीप्यानाः वृष्णे सपत्नीषु च उभे अस्मै मनुष्ये ए, ए, ए, ए पुरौ महाङ्गनिबाधेव वर्धापो अग्नियशसः सं हि पूर्वीः ऋतस्य यो नाशयद्दमोहो ना वीनामग्निरपसि स्वसॄणाम् अक्रो न बभ्रिः समिथे महेना हन्दिदृक्षे यः सो न वे गर्भो नृतमो जह्वो अग्निः अपाङ्गर्भम् दर्शतमोषधीनाम्बनाजानसुभगाविरूपम् देवासश्चिन्मनसासं हि जग्मुः परिष्ठम् जातम् तव सन् दुवस्यन् गृहन्त इद्धा गुहे एव वृद्धम् स शिस्वे अन्तरपार ईळे एचत्वा यजमानो हविर्भिरीले सखित्तम् सुमतिम् निकामः देवैरवो निमिः सञ्जरित्रे रक्षा च नूतन्येभिरनीकैः उपक्षेतारस्तव सुप्रणीते ज्ञे विश्वारिधन्यादधानाः सुरेतसा श्रवसातुञ्जमाना अभिष्याहामपृतनायोवान आदेवानाहामभवः केतुरग्ने मन्द्रो विश्वाहानि काव्यानि विद्वान् प्रतिमर्ता अङ्गवासयो दमूना अनुदेवान्द्रचिरो या आसि साधन् दिदुरोणे अमृतो मर्त्यानाम् राजाः ससाद विदधाः निधन् घृतप्रतीक उर्वियाव्यद्यौ दग्निर्विश्वानि काव्यानि नोगहि सख्येभिः शिवेभिर्महान्महीभिरोतिभिः सरण्यन् अस्मे रजिम् बहुलम् सन्तरुद्रम् सुवाचम् भागम् यशसङ्कृधीनः एता ते ए अग्ने जनिमासनाहा निपूर्व्याय नूतनानि वोचम् महान्तिवृष्णे समना कृते मा जन्मम् जन्मन्निहितो जातभेदाः जन्मम् जन्मन्निहितो जातवेदा विश्वामित्रेऽभिरिध्यते अजस्रः कस्य वयम् सुमतौ यज्ञ यस्यापि भद्रेऽसौः मनसे स्याम इमम् यज्ञम् सहसा वन्त्वेहि सुक्रतो न राणः रयम् सिहोतर्बृहदीरिशोनोग्ने महिद्रविणमा यजस्व इळामग्ने पुरुदम् संसनिङ्गोऽ शश्वत्तमम् हवमानाय साध स्यान्न सोऽनुस्तनयो विजावाग्ने साते ए सुमतिर्भूत् तस्मे वैश्वादरायधिषणामृतावृते एघृतम् न भूतमग्नये एजनामसि द्विता सरोचयज्जनुषारोदसी उभे समात्रो ईड्याः अव्यवाळग्निरजरश्चनो हितो दूळभो विशामतिथिर्विभावसुः कृत्वा दक्षस्य तरुशोऽपि धर्मणिदेवासो अग्निम् जनयन्त चित्तिभिः रुरुचारम् भानुराज्योतिषा महामत्यन्नवाजुम् आमन्द्रस्य स निष्यन्तोऽपरेण्यम् वृणेमहे अह्रयम् वाजमृग्मियम् रातिम् भृगोणामुषिजम् कविक्रतुमग्निम् राजन्तम् दिव्येन शोचिषाः अग्निम् सुम्नायतधिरे पुरोजनावाजश्रवसमिह वृत्तपर्षः यतसृचः सुरुचम् विश्वदेव्यम् रुद्रम् यज्ञानाम् साधदिष्टिमपसाम् पावकशोचेतबहिक्षयम् परिहोतर्यज्ञेषु वृत्तवर्विशिषो नराः अग्नेदुव इच्छमानासहाप्यमुपासते द्रविणन्धे हितेभ्याः आरोदसि अप्रणदा स्वर्महज्जातञयतेनमपसो अध आरयन् सो अध्वराय परिणीयते कविरत्यो न वाजसातये च नो हितः नमस्यत त हव्यदातिं स्वरन्तु वस्य तदम् यम् जातवेदसम् रथीरतस्य बृहतो विचर्षणिरग्निर्देवानामभवत्पुरोहितः इति यः क्वस्य समिधः परिज्मनोऽग्नेरपुनन्नुषियोमृत्यवः तासामेकामदधुर्मर्त्ये भुजमुलोकमुद्वे उपजामिमीयतुः इशाम् कविम् विश्वशीरिषः संसेहे मकृतिजसे स उद्गतो निवतोः यातिमे विषत्सगर्भरेषु भुवनेषु दीधरत् स जिन्वते जठरेषु प्रजज्जिवान्मृषाः चित्रेषु नानदन्नसिंहः वैश्वानरः पृथुपादा अमर्त्यो वसुरत्नादयवानो विदाशुषे ऐश्वातरः प्रत्नधाराकमारुहद्दिवः स्पृष्ठम् वन्दमानः सुमन्मभिः सपोर्वरज्जनयञ्जन्तवेधनम् समानमज्मम् पर्ये दिनागृभिः वृतावानयज्ञियम् विप्रमुक्त्या अमायन्तधे मातरिष्वाहादिभिक्षयम् तञ्चित्रयामम् हरिकेशमीमहे सुधीतिमग्निम् शुचिन्नयामन्निशिरम् स्वर्दृशम् केतुम् दिवो रोचनस्थामुषर्बुधम् अग्निम् ओर्धानम् दिवो अप्रतिस्पुतन्दमी नमसा वाजिनम् मन्द्रम् होतारम् शुचिमद्वयाभिनन्दमो न समुख्यम् विश्वचर्षणिम् रथन्नचित्रम् वकुशाय दर्शतम् अनुर्वृहितम् सदविद्राय ईमहे वैश्वानरायपृथुपायसेविको रत्नाविधन्तधरुणेषु गातवे अग्निर्हि देवाम् अमृतो दुवस्यत्यथा धर्माणि सनतारदूदुषत् अन्तर्दूतो रोदसी तस्मदीयते होतानिषत्तो मनुषः पुरोहितः क्षयम् वृहन्तम् परिभूषति द्युभिर्देवेभिरग्निरिशितो धिया वसुः एतम् यज्ञानाहम् विदधस्य साधनम् विप्रासो अग्निम् महयन्तचित्तिभिः अपाहंसि यस्मिन्नधिसन्ददुर्गिरस्तस्मिन् सुम्नादीयजमान आचके पिता यज्ञानामसुरोऽपि पश्चिताम् विमानमग्निर्वजुनम् च वागताम् आपिबे शरोद श्रीभूरिवर्पसा पुरप्रियो भन्दतेधामभिः कविः चन्द्रमग्निम् चन्द्ररथम् हरिवरतम् वैश्वानरमप्सुषतम् स्वर्विदम् विगाहन्तोर्णिम् कविषेभिरावृतम् भूर्णिम् देवास इह सुश्रियम् ददुः अग्निर्देवेभिर्मनुषश्च जन्तुभिस्तम् बाणो यज्ञम् पुरुकेश सन्ध्य तथिरन्तरीयते साधदिष्टिभिर्जीरोदमो नाभिषस्ति च अग्नेजरस्वस्वपत्य आयुन्योर्जापिन्वस्वसमिषो दिदेहिनः वयांसि जिन्वबृहतश्च जागृव उषिग्देवा नामसि शुक्रदुर्भि विष्पती यक्वमति हिन्दरः सदा आयन्तारम् दीरामुषिजम् च वाघताम् अध्वराणाम् चेतनम् सन्ति नमसा ज्योतिभिर्वृधे विभावा देवः सुरणः परीक्षितिरग्निर्बभू वशवसा सुमद्रथः तस्य ऊरतारिभूरि पोषिणो वयमुपभूषे पदमहासुवृत्तिभिः वैश्वानरतवधा मान्या च केयेभिः स्वर्विदभवो विचक्षण जाता प्रणोपुवना निरोदसी अग्नेता विश्वापरिभूरसित्मनाः वैश्वानरस्य दंसनाःभ्यो बृहदरिणादेकस्वपस्ययाः कविः उभापितराः महयन्नग्निर्द्यावाः पृथिवी भूरिरेतसा समित् समित्सुमनाः बोध्यस्मे शुचाशुचा सुमतिम् राः शिव स्वाहा आदे एव देवान्यरथा यम् देवास्रिरहन्नायजन्ते दिवे दिवे वरुणो मित्रो अग्निः सेमय यज्ञम् मधुमन्तम् कृते नस्तनोऽनपाधिहृतयो निम् विधन्तम् प्रदेथितिर्विश्ववारादिकाति होतारमिळः प्रथमै यजध्यै अच्छानमोभिर्वृषभम् वन्दध्यै स देवान्यक्षदिषितो यजीया ऊर्ध्वा वा अङ्गातुरध्वरे अकार्योर्ध्वा शोचीं शिप्रस्थिता रजांसि दिवो बानाभान्यसादिहोताः शृणीमहि देवम् यथा विबर्हिः सप्तहोत्राणि मनसा वृणाना इन्वन्द्वो विश्वम् प्रतियम् नृतेन नृपेशसो विदथेः शुप्रदाता अभीमै यज्ञम् आभन्दमाने उषसा उपाके उत स्मयेते तन्वाविरूपे व्यथा नो मित्रो वरुणो ऋोः शलिन्द्रोः मरुत्वाहम् उत वामहोभिः नैव्याहोताहारा प्रथमान्यरञ्जे सप्तवृक्षासस्वधयाः मदन्ति ऋतम् शंसन्तऋतमित्ताहुरनु रथम् रतपादीध्यानाः आभारती भारतीभिः स जोषा इडा आ देवैर्मनुष्येभिरग्निः सरस्वती सारस्वतेभिरर्वाक्तिस्रो देवैर्बर्हिरेगम् सदन्तु तन्नस्तुरीपमथपोषहिनु देवतष्टर्विरराणस्य स्व यतो वीरः कर्मण्यः सुदक्षो यत्प्रग्राहाजायते देवका महा वनस्पतेव सृजोपदेवानग्निर्हविष्यमिता सूदयाति से दुहोताः सत्यतरो यदाति यथाः देवानाञ्जलिमानिवेद आयाह्यज्ञे समिधानो अर्वाङ्गिन्द्रेण देवैः सरथम् दुरेभिः बर्हिर्नास्तामदितिः सुपुत्रा स्वाहा देवा अमृताः मादयन्ताम् प्रत्यग्षसश्चेकितानो बोधिभिप्रः पदवीः कवीनाम् पृथुराजाः देवयद्भिः समिद्धोपद्वारातमसो बह्निरावः प्रेद्वग्निर्वाहवृथे स्तोमेःभिर्गीर्भिस्तो तृणान्नभस्य उक्तैः पूर्वीरतस्य सन्दृशश्च कानः सन्दूतो अद्यौ अथा यज्ञर्मानुषेषु विक्ष्वा अपाङ्गर्भो मित्रहृते न साधन् आहर्यतो यजतः सान्वस्थादभो दुभि प्रोहं यो मतीनाम् मित्रोऽग्निर्भवति यत्समिद्धो मित्रोः तामरुणो जातवेदाः मित्रो अभर्युरिषिरोदमोहो न मित्रः पाति प्रियम् रिपो अग्रम् पदम्बेः पाति यह्वश्चरणम् सूर्यस्य पाति नाभाः सप्त शीर्षाणमग्निः पाति देवानामुपमादमृश्वः